गणेशपुराणम् उपासनाखण्डम् अध्यायम् ट्वेन्टिफोर् भीम उवाच दक्षेण मुनिशार्दूलराजपुत्रेण धीमदा अनुष्ठानम् कृतम् कुत्र कथम् वा कस्य वा मुने एतद्विस्तार्यब्रूहित्वम् शृणुवां स्तृप्याम्यहम् न विश्वामित्र उवाच अविदूरे पुरस्तस्या कौण्डिन्यस्य महावनं रम्यं नानावृक्षयुधं नानाश्वापदसङ्कुलं नानापक्षिगणैर्युक्तं लताजालविराजितम् सन्मनो निर्मलपयः सरोवापी विराजितं जीर्णप्रासादमध्यस्तगजाननविराजितं तत्र स्थित्वा तपश्चक्रे गजाननसुतोषकं मुद्गलेनोपदिष्टेन मन्त्रेणैकाक्षरेण सह तोषयामास तं देवं वर्षैर्द्वादशसम्मितैः स्नानैर्वस्त्रैः सुगन्धैश्च माल्यैर्धूपैश्च दीपिकैः नैवेद्यं कन्दमूलैश्च भक्षणीयैरकल्पयद मनसा कल्पयामास दक्षिणां क्षत्रियर्षभः एवं तस्यागमन्भूपदिनानि त्वे गविंशतिः तदः प्रभातसमये स्वयमेवं ददर्शसः एकं महामतङ्कं च सिन्धुराक्तं सुशोभितम् मदस्राविसुगण्डाभ्यां सुन्दरं गिरिसन्निभं चारुप्रसन्नवदनं दन्तशोभिमहत्करं भ्रमरालिसमाकीर्णं गजाननमिवापरं तेन तत्कण्ठदेश्येतुरत्नमाला रत्नमालासमर्पिता तद उत्थाप्य तं स्कन्धे स्थापयाम स दन्दिराट स दन्दीनगरं यादः पताका ध्वजशोभिदं तदः सप्रतिबुद्धः सन् पप्र जननीं निजां कमदेवदमातस्त्वमस्याभिप्रायमद्य मे आरोहणं गजस्कन्धे शुभं वा यदि वा शुभं कमलोवाच धन्यस्त्वमसि दृष्टोऽयं गजरूपी विनायकः आरोहणफलं राज्यप्राप्तिरेवन संशयः दक्ष उवाच यदि राजस्य प्ति स्यात् तुभ्यं ददाम्यहं नरयानं तथा दीदिकां मौक्दिकं स्रजं धर्मं च कारयिष्यामि गवाष्टा पददानदः व्रतानि नियमांश्चैव दानान्यनेकशः मुनिरुवाच श्रुत्वेद्धं कमला हृष्टा जगादतनयं प्रदि त्वयि राज्यस्थिते पुत्रपरमानन्दता मम सद्धर्मेरमदां चेदः सदःसारभृतस्तव आयुष्यविपुलं ते स्तु इति उपासना उपासनाखण्डे स्वप्नकथनं नाम सदुर्विंशोऽध्यायः ओ